लिन्दे तटविपिनसङ्गीत करवो मुदा भीरि नारी वदन कमला स्वाद मधुप रमाशम्भो ब्रह्मा सुरपतिगणेशार्थितपो जगन्नाथस्वामी नयनपथगामि भवतु मे भुजे सदेवेरुं शिरसि सिकपुक्षं कटितटे दुकोलं नेत्रान्ते सहचर कटाक्षं विलसयन् सदा श्रीमद्वृन्दां वनवसतिलीलापरिचयो जगन्नाथस्वामी नयनपथगामि भवतु ने महाम्भोधे स्थिरे फनकरुचिरे नीलशिखरे वसन्प्रासादान्त सहजबलभद्रेण बलिनां सुभद्रामध्यस्थ सकलसुरसेवावशरदो जगन्नाथ स्वामी नयनपथगामी पापारा वार सजल जल दशे निरुचिरो रमावाी राम पुरदलमलपङ्केरुहमुख सुरेन्द्रैराराध्य श्रुतिगणशिखा गीत चरितो जगन्नाथस्वामी नयनपथगामी भवतु मे रथारुढो गच्छन् पथि मिलित भूदेवपटलै कृते प्रादुर्भावम् प्रतिपदमुपाकर्णसद या सिन्धुर्बन्धो सकलजगतां सिन्धुसुतया जगन्नाथ स्वामी नयनपथगामि भवतु मे पराब्रह्मा पीडा कोमलय नयनों। से निहित निहितचरणो नन्त शिरशे रसानन्दो राधा सरस्व पुरालिङ्गनसुखो जगन्नाथ स्वामी नयनपथगामि भवतु न वै याचे राज्यं न च कनकमारेक्यविभवं न याचेऽहं रम्यां सकलजनकाम्यां वरवधुं तदा कारे प्रमथपतिनागेत चरितो। जगन्नाथ स्वामी नयनपथगामी भवतु मे हरत्वं संसारं द्रुततरमसारं सुरपते हर त्वं पापानाम् विततिमपरां यादवपते अहो दीनाथम् निहितमचलं निश्चितपदं जगन्नाथ स्वामी नयनपथगामि भवतु मे जगन्नाथ स्वामी नयनपथगामि भवतु जगन्नाथाष्टकं पुण्यं य पठेत् सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति